अथ शापोद्भारमन्त्रः ॐ ह्रीं क्लीं श्रीं क्रापानुग्रहम् ॐ ह्रीं क्लीं श्रीं क्रां क्रीं चण्डिके देविशापानुग्रहम् स्वाहा ॐ ह्रीं क्लीं श्रीं क्रां क्री चण्डिके देविशापानुग्रहम् गुरुकुरु स्वाहा ॐ ह्रीं क्लीं श्रीं क्रा क्री चण्डिके देविशापानुग्रहम् गुरुकुरु स्वाहा ॐ ह्रीं क्लीं श्रीं क्रां क्रीं चण्डिके देविशापानुग्रहम् कुरुकुरु स्वाहा ॐ ह्रीं क्लीं श्रीं क्रां क्रीम् चण्डिके देवि शापानुग्रहम् कुरु कुरु स्वाहा ॐ ह्रीं क्लीं श्रीङ् क्राम् क्री चण्डिके देवि शापानुग्रहम् कुरु